अथ अष्टादशाधिकशततमोऽध्यायः वैशम्पायन उवाच तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवं सभार्यशोकदुःखार्तः पर्यदेव यदातुरः पाण्डुरुवाच सतामपि कुले जाताः कर्मणा बत दुर्गतिं प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः शशवद्धर्मात्मना जातो बाल पिता मम जीवितान्तमनुप्राप्तः त्मैवेति न श्रुतं तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः कृष्णद्वैपायनः साक्षात् भगवान् मामजीजनत् तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा त्यक्तस्य देवैरनयान्मृगयां परिधावतः मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् अतीव तपसात् मानं योजयिष्याम्य संशयं तस्मादेकोऽहमेकाकी एकैकस्मिन् वनस्पतौ चरन् भैक्ष्यं मुनिर्मुण्डश्चरिष्याम्याश्रमानि समवच्छन्नः शून्यागारकृतालयः वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः न शोचन्न प्रहृश्यंश्च तुल्यनिन्दात्मसंस्तुतिः निर्द्वन्द्वो निष्परिग्रहः न चाप्यवहसन् कश्चिन्न कुर्वन् भ्रुकुटीं क्वचित्